युधिष्ठिरौवाच यमग्निर्ब्राह्मणो भूत्वा समागच्छन् नृणाम्बरम् दिधक्षुःखाण्डवम् दावम् दाशार्हसहितं पुरा महाबलं महाबाहोमजितं कुरुनन्दनम् सोयं किं कर्म कौन्ते करिष्यति धनञ्जयः योऽयमासाद्यतम् दावम् तर्पयामासपावकम् विजित्यैकरथेनेन्द्रम् हत्वापन्नगराक्षसान् वासुके सर्पराजस्यासारम् हृतवांश्चयः श्रेष्ठो सोऽजुनः किम् करिष्यति सूर्यप्रतपताम् श्रेष्ठो द्विपदाम् ब्राह्मणो वरः आशीर्भिषश्च सर्पाणामग्निस्तेजस्विनां आयुधानां वरम् वज्रम् ककुद्मी च गवां वरः ह्रदानामुदधि श्रेष्ठः पर्जन्यो वर्षदां वरः धृतराष्ट्रश्च नागानाम् हस्तिष्वैरावणो वरः पुत्रप्रियाणामधिको भार्या च सहृदां वरा गिरीणां प्रवरो मेरुर्देवानां मधुसूदनः ग्रहाणाम् प्रवरश्चन्द्रः सरसां मानसं वरम् यथैतानि विशिष्टानि जात्याञ्जात्याम् वृकोदरा एवं युवा गुडाकेशश्रेष्ठः सर्वधनुष्मताम् सोऽयमिन्द्रादनवरो वासुदेवान्महाद्युतिः गाण्डीवधन्वा वा बीभत्सवश्वेताश्व <coughs> <coughs> सोऽयम् किम् कर्म कौन्ते यः करिष्यति धनञ्जयः